देवदेव देव महादेव, त्रिकालज्ञमहेश्वर करुणाकरदेवेश भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ईश्वर उवाच देवी साधुमहाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनं सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदं राजवश्यकरं दिव्यं गुह्याद्गुह्यतरं परं दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदं पद्मादीनां नवानां च निधीनां नित्यदायकम् समस्तदेव संसेव्यम् अणिमाद्यष्टसिद्धिदं किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं तव प्रीत्याद्य वक्ष्यामि अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु क्लीम्बीजपदमित्युक्तं शक्तिस्तु अंगनियासन सह सदी प्रकर्ति वंदे पद्मक प्रसन्न वद सौभाग्यं हस्ताभ्याम हस्ताम भय प्रदान मणिगण नानाधरभूषिता भक्ताभीष्टफलप्रदां हरिहर ब्रह्मादिभिः सेवितां पार्श्वे पङ्कज शङ्खपद्मनिधिभिः युक्तां सदा शक्तिभिः सरसि जनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां वाचं पद्मालयां पद्मां सुचिं स्वाहां स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीम् नित्यपुष्टां विभावरीं अदितिं च दितिं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्तां कामां क्षीरोदसम्भवाम् अनुग्रहप्रदां बुद्धिम् अनघां हरिवल्लभाम् अशोकाम् अमृतां दीप्तां लोकशोकविनाशिनीम् नमामि धर्मनिलयां करुणां लोकमातरं पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नाम् प्रसादाभिमुखीं प्रभां नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीं चतुर्भुजां चन्द्ररूपां इन्दिरां इन्दुशीतलाम् आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियं भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुन्धरामुदाराङ्गां हरिणीं हेममालिनी धनधान्यकरीं सिद्धिं स्त्रैण सौम्यां शुभप्रदां नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलादेवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीं लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्द कटाक्षलब्ध विभव ब्रह्मेन्द्र गङ्गाधरा त्वां त्रैलोक्य वन्दे मुकुन्द प्रिया मातर्नमामि कमले कमला यताक्षी श्रीविष्णुहृत् कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मीप्रसीद सततं नमतां शरण्ये त्रिकालं यो जपे द्विद्वान् षण्मासं विजितेन्द्रियः दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोति देवी नाम सहस्रेषु येन श्रियमवाप्नोति दरिद्रः कोटिजन्मसु भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले दारिद्र्यमोचनं नाम स्तोत्रमम्बा परं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भुक्त्वा तु विपुलान् भोगान् अस्यायुज्यमुया प्रत कालेे पठेन्त्यंसुखोपितवी सर्व सर्वाभरणूषिता